श्रीमन श्रीमन्महाभारतम् आदिपर्वणि मयदर्शनपर्वणि मयदानवत्राणे द्विशततमो अध्यायः वैशंपायन उवाच तथा शैलनिपातेन भीशिता खाण्डवालयाः दानवा राक्षसानागास्तरक्ष्वृक्षवनौकसः द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा तथान्या भूतजातयः तं दावं समुदेक्षन्तकृष्णौ चाभ्युद्यतायुधौ स्थिताः तेवनं प्रसमीक्ष्यथ दह्यमानमनेकधा कृष्णमभ्युद्यतास्त्रं मुमुचुरुल्बणं। नादं मुमुचुरुल्बणम् ना ना विभावसोः ररासगगनं कृत्स्नमुत्पातजलदैरिव ततः स्वतेजोभास्वरं महत् चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः तेनार्ता जातयः क्षुद्रा सदानवनिशाचराः नवनिशाचराः निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् तत्रा दृश्यन्तते दैत्या कृष्णचक्रविदारिताः वसारुधिरसम्पृक्ताः पिशाचान पिशाचान् पक्षिणो नागान्पशूंश्चैव सहस्रशः निघ्नंश्चरति वार्ष्णेयः कालवत् तत्र भारत क्षिप्तम् क्षिप्तम् पुनश्चक्रम् कृष्णस्यामित्रघातिनः छित्त्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान् बभूवरूपमत्युग्रम् सर्वभूतात्मनस्तदा समेतानाम् च सर्वेषाम् दानवानाम् विजेताना सर्वशः विजेतानाभवत् कश्चित् कृष्णपाण्डवयोर्मृधे तयोर्बलात् परित्रातुं तं च दावं यदा सुराः नाशक्नुवञ्छमयितुं तदा भूवन् पराङ्मुखाः शतक्रतुस्तु सम्प्रेक्ष्य विमुखानमरांस्तथा